श्रीमन्महाभारतम् आदिपर्वणि आस्तीकपर्वणि सर्पनामकथने पञ्चत्रिंशौ अध्यायः शौनक उवाच भुजङ्गमानां शापस्य मात्रा चैव सुतेन च विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन वरप्रदानं भर्त्रा कद्रू कद्रूविनतयोस्तथा नामनी चैव ते प्रोक्ते पक्षिणोर्वैन ते ययोः पन्नगानां तु नामानि न कीर्तयसि सुतज प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयं सौतिरुवाच बहुत्वान्नामधेयानि पन्नगानां तपोधन न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् ऐरावतस्तक्षकश्च लियोमणिनागश्च नागश्चापूरणस्तथा नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः नीलानीलौ तथा नागौ कल्माशशबलौ तथा आर्यकश्चोग्रकश्चैव नागः कलशपोतकः सुमनाख्योदधिमुखस्तथा विमलपिण्डकः आप्तः कर्कोटकश्चैव शङ्खो वालिशिखस्तथा निष्टानकोहे मगुहो नहुषः बाह्यकर्णोहस्तिपदस्तथा बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः कम्बलाश्वतरौ चापि नागः कालीयकस्तकोर्तकौ नागौ द्वौ पद्मावितिश्रुतौ नागः शङ्खमुखश्चैव तथा कूष्माण्डकोपरः क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः मूशकादः शङ्खशिरः पूर्णभद्रो हरिद्रकः अपराजितो ज्योतिकश्च पन्नगः शिवः स्तथा क्रौ शङ्खपिण्डश्च वीर्यवान् विरजाश्च सुबाहुश्च शालिपिण्डस्य वीर्यवान् हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः कुमुदः कुमुदाक्षश्च कुमुदा तित्तिरिर्हलिकस्तथा कर्दमश्च महानागो नागश्च बहुमूलकः कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तमा बहुत्वान्नामधेयानामितरेणानुकीर्तिताः एतेषाम् प्रसवो यश्च प्रसवस्य च सन्ततिः असङ्ख्येयेति मत्वा तान्नब्रवीमि तपोधन बहूनिह सहस्राणि प्रयुतान्यर्बुदानि च अशक्यान्येव सङ्ख्यातुम् पन्नगानाम् तपोधन महाभारते श्रीम्मते आदिपर्व आस्तीकपर्वि सर्पनामकथनेचत्रिश्याय